सप्तश्लोकी दृगां स्युवाच देवितं भक्तसुलभे सर्वकार्यविधायिनी कलौ हि कार्यसिद्ध्यर्थम् उपायं ब्रूहि देव्यवाच देव्युवाच तृणदेव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम् मया तवैव स्नेहेन अपि अम्बा स्तुतिप्रकाश्यते ॐ अस्य श्रीदुर्गासप्तश्लोकी स्तोत्रमन्त्रस्य नारायणऋषिः अनुष्टुच्छन्दः श्रीमहाकाली महालक्ष्मी महासरस्वत्यो देवताः श्रीदुर्गाप्रीत्यर्थम् सप्तश्लोके दुर्गापाठे विनियोगः ॐ ज्ञाणिनामपि चेतांसि देवी भगवती सा बरादाकृष्यमोहाय महामाया प्रयक्षति दुर्गे स्मृता हरसि भीतमसे सजन्तु स्वस्थैः स्मृता मतिुमतिशुभां ददासि दारिद्र्यदुःखभयहारणिकात्वदन्या सर्वोपकारकरणाय सदाय चेत्ता सर्वमङ्गलमङ्गल्ये शिवे शर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणी नमो स्तुते शरणागत दीनाथ परित्राणपरायणे सर्वस्यार्तिफरे देवि नारायणि नमोस्तुति सर्वस्वरूपे सर्वेशि सर्वशक्तिसमन्विते भयेभ्यस्त्राशिनो देवी दुर्गे देवी नमोस्तुति द्रोगान् शेषानपहंसितुष्टा दृष्टा तु कामां सकलानभीष्टाम् स्वामाश्रितानां न विपन्नराणां त्वामाश्रिता शाश्रयतां प्रयान्ति सर्वा बाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरी एवमेव त्वया कार्यम् अस्मद्धैर्यविनाशनम् ॐ श्रीदुर्गायै नमः